श्री दुर्गचन्द्रकलास्तुतिः वेधो हरीश्वरस्तुत्याम् विहर्त्रीम् विन्ध्यभूधरे हरप्राणेश्वरीं वन्दे हन्त्रीं गृहविद्विषाम् अभ्यर्थनेन सरसि रुहसम्भवस्य त्यक्तोदिता भगवदक्षिपिधानलीला विश्वेश्वरी विपदवागमने पुरस्तात् माता ममास्तु मधुकैटभयोर्निहन्त्री प्राणिनिर्जलेषु निहितैर् निजशक्तिलेशैः ये कीभवद्भिरुहिताखिल लोकगुप्त्यै सम्पन्नशस्त्रनिकरा च तदायुधस्थैः माता ममास्तु महिशान्तकरी पुरस्तात् प्रालेयशैलतनया समुकान्ति सम्पदे कोशोदिता कुमलयच्छविता रुदेहा नारायणी न मलभीसिदकल्पवल्ली सुप्रीतिमा वहतु शुम्भ निशुम्भहन्त्री विश्वेश्वरीति महिशान्तकरीति यस्याः नारायणीत्यपि च सूक्तानि पङ्कज भुवाच सुरर्षिभिश्च दृष्टाणि पावकमुखैश्च शिवाम् भजेताम् उत्पत्तिदैत्यहणनस्तवणात्मकानि संरक्षकान्यखिलभूतहिताय यस्याः सूक्तान्यशेषनिगमान्तविदः पठन्ति ताम् विश्वमातरमजस्रमभिष्टवीमि देवैः प्रचित्त पुनरुत्थितशुम्भमुख्यैः आविष्कृतास्त्रिजगदार्तिषुरूपभेदाः तैरम्भिकामभिरक्षतु माम् विपद्भ्यः सूक्तम् यदीयमरविन्द भवादि दृष्टम् आवक्तदेव्यनुपदम् सुरथः समाधिः द्वावव्यवापदुरभीष्टमनन्य लभ्यम् चामादिदेव तरुणीम् प्रणमामि देवीम् माहिष्मती अनुभवम् आविष्कृतेर्निज रसादवतार भेदैः अष्टादशाह नवाहत कोटिसङ्ख्यैः अम्बासदामपि रक्षतु माम् विपद्यः एतच्चरित्रमखिलम् लिखितम् हि यस्य सम्पूजितम् सदन एव निवेशितम् दुस्तरमप्यशेषम् श्रेयः प्रयच्छति स सर्वनुमाम् भजेताम् यत्पूजनस्तुति नमस्कृतिभिर्भवन्ति प्रीताः पितामह रमेश हरास्त्रयोऽपि तेषामपि स्वगगुणैर्ती वपुंषि कामेश्वरस्य प्रपद्ये कान्तारमद्य वसन्ना मग्नाश्च वारिधिजले ऋविभुश्च यस्याः प्रपद्यचरणौ विवरस्तवन्ति सा मे सदा स्तुरति सर्व जगत् सवित्री बन्धे वधे महति मृत्युभये प्रसक्ते वित्तक्षये च विविधे च महोपलापे यत्पादपूजनमिह प्रतिकारमाहुः सा मे समस्त जननी शरणम् भवानी बाणासुरप्रहितपन्नकबन्ध तद्बाहुदर्पदलना रुचिनया च योगः राज्युम् निनादृतमलभ्यत यत् प्रसादात् सा क्षिणोतु पापः कुलस्य तनयः अद्यापि हर्तुमयमागत यत्सेवनेन भयमिन्दिरयावधूतम् तामादिदेवतरुणीम् शरणम् गतोऽस्मि यद्यानजम् सुखमवाप्यनन्द पुण्यैः साक्षात्तमच्युत परिग्रहमाश्ववापुः सदा भगवती भवतु प्रसन्ना रात्रिम् प्रपद्य इति मन्त्रविदः प्रपन्नान् उद्बोध्य मृत्युपधिमन्यफलैः प्रलोभ्य बुद्ध्वा च तद्विमुखताम् प्रतनम् आकाशमाधिजननीम् जगताम् भजेता